नापति अञ्चाव दशकम् विपै ऐ सपलमुराजे पाणिजानुप्रचारै किमपि भवन भागान् भूषयन्तौ भवन्तौ चलित चरण कुञ्जौ मञ्जुमञ्जीर चिञ्ज्ञा श्रवण कुतुकबाजौ चेर दुश्चारुवेग मृदु मृदु विहसन्दा उन्मिष दन्तवन्तौ वदनपदिदकेशौ दृश्यपादाब्जदेशौ भुजगलितकरान्त व्यालदत्कङ्गणाङ्कौ मदिमहरदमुश्चये पश्यताम् विश्वनृणा अनुसरदिजनौगे। कौतुकव्याकुलाशे किमपि कृत निदानम् वलितवदनपद्मा पृष्ठदो दृष्टि किमिवन विददाते कौतुकम् वासुदेव द्रुतगतिशुपदन्त उत्थितौ दिवि मुनिविरबङ्कये सस्मितम् वन्द्यमानौ द्रुतमतजननीभ्याम् सानुकम्पम् गृहीतौ मुहुरभि परिरब्धौ द्रात्युमाम् सुम्बितौश्च स्नुतकुशवरमङ्गे धारयन्ती भवन्त तरलमदीयशोदा स्तन्यधादन्यधन्या कपटपशुममध्ये मुक्तहासाम् कुरम् ते दशनमुकुलहृद्यम् वीक्षवक्त्रम् जहर्ष ददनुचरणचारी दारतैः साकमारात् निलय ददिषु केलन् बालचापल्यचाली भवनशुगविडालान् वत्सकांशानुधावन् कथमभि कृदघासे गोपकैर्वारितोपूम् हलदरसकितस्त्वम् यत्र यत्रोपयाधो विवचपतितनेत्रा गोप्य विगलितगृथकृत्या विस्मृतापत्यवृत्त्या मुरहरमुखुरत् यन्ताकुला नित्यमासन् प्रतिनवनवनीतम् गोपिका दत्तमिच्छन् कलपदमुपगायन् कोमलम् क्वापि सर्पिरश्नन् वचन नवविभक्वम् दुःखमप्याविभस्त्वम् मम खलु बलिगेहे याचनम् जातमास्ता अग्रतो नैव कुर्वे इति विहितमधिक्यम् देवसन्त्यज्य याज्ञाम् प्रतिकृतमगरस्त्वम् चारुणाचोरणेन तवदतिकृतमोक्षे गोषयोक्षा जनानाम् अबदधृदि घोषा कृतयमभिमुषित्वा हर्षसिन्धौ न्यदास्त्वम् समम समय रोगान् वादगे कातिनाथ शाघाक्रेतवितुम् विलोक्यफल नित्यम् वां च तातम् मुहो सम्प्रार्थ्याद तदादीय वचसा प्रोक्षिप्तबाहौ त्वयि चित्रम् देवस शीलते करमगा किम् ब्रूमके सम्पद ज्योतिर्मण्टलपूरिताखिलव प्राघाविराट्रूपता किम् किम् पतेदमिति सम्भ्रमबाजमीनम् ब्रह्मार्णवेक्षणममुम् परिमज्जता तम् मायाम् पुनस्तनयमोकमयीम् विदन्वन् आनन्दचिन्मय जगन्मय पाहिरोगा सर्वत्र गोपिका जीवनस्मरणम् गोविन्दा गोविन्द